नारायणीयम् दशकम् एय्टि एय्ट् मल्टिपल् मीटर्स् प्रागेवचार्यपुत्रा कृतिनिशमनया स्वीय षट्सूनुवीक्षा काङ्क्षन्द्या माधुरुक्रिया सुतलभुवि बलिं प्राप्य तेनार्चितस्त्वम् धादुशापाधिरण्यान्वितकशिपु भवान् चौरिजान् कंसभग्नानी यैनान् प्रदर्श्य स्वपदमनयधा पूर्वपुत्रान् मरीचेः श्रुतदेव युधि श्रुतं द्विजेन्द्रम् बहुलाश्वं नृपतिं च भक्तिपूर्णम् युगपत्वमनुग्रहीदुकामो मिथिलाम् प्रापिध तापसै समेतः गचन्विमूर्तिपयोगपन्नीकेदेन भूरि विभवैर्पचार तृद्श भलौद नाद्याल्यम ना प्रसेदी ददच च मुक्ति मभ्या भूयधद्द्वार द्विजतनयमृद्धिं तत्प्रलाबानपित्वं को वा दैवं निरुन्ध्यादिति किल कथयन्विश्व वोढाप्यसोढाः जिष्णोर्गर्वं विनेतुं त्वयि चास्य बुद्धिं तत्त्वारुढां विधातुं परमतमपदप्रेक्षणेनेदि स्मिष्टा अष्टास्य पुत्रा पुनरपि तव दूपेक्षया कष्टवादस्पष्टो जादो जनानां मद तदवसरे द्वरकामापपार्थः मैत्र्या तत्रोषितोसौ नवमसुधमृदौ विप्रवर्यप्ररोदं श्रुत्वा चक्रे प्रतिज्ञामनुपहृतसुधः सन्निवेक्ष्ये कृशानम् मानी सत्त्वामपृष्ट्वा द्विजनिलयगदोबाणजालैर्महास्त्रैरुन्धानसूधिगेहं पुनरपि सहसा दृष्टनष्टे कुमारे यां यामैन्द्रीं तधान्या सुरवरनगरीर्विद्यया हुत भुजि भवदा सस्मिदं वारितोऽभूत् सार्धं तेन प्रतीचीं दिशमदिजविनास्यन्त तेनाभियादो लोकालोकम् व्यतीतस्तिमिरभरमधो चक्रधाम्ना निरुन्धन् चक्रांशुक्लिष्टदृष्टिं स्थितमथविजयम् पश्य पश्येदिवाराम् पारे त्वं प्रादर्श किमपि हितमसां दूरदूरं पदं ते तत्रासीनं भुजङ्गाधिपशयनदले दिव्यभूषायुधाद्यैरावीदम्बिदचेलन् प्रदिनव जलदश्यामलं श्रीमदङ्गम् मूर्तीनामीशिदारम् परमिहतिसृणामेकमर्थम् श्रुतीनां त्वामेव त्वम् परात्मन्प्रियसख सहितो नेमिधक्षेमरूपम् युवां मामेवद्वावधिकविवृतान्दर्हितया विभिन्नौ सन्द्रष्टुम् स्वयमहमहार्षम् द्विजसुतान् न येदन्द्रागेदानिति खलु विदीर्णान् पुनरमून् द्विजाया दायादा प्रणुदमहिमा पाण्डुजनुषा एवं नानाविहारैर्जगदभिरमयन्वृष्णिवंश्यं प्रपुष्णन्निजानो यज्ञभेदैरदुलविहृदिभिप्रीणयन्नेण नेत्राः ने भूभारक्षेपदम्भात् पदकमलजुषा मोक्षणायावतीर्नपूर्णम् ब्रह्मैव साक्षाद्यदुषु मनुजदारूषितस्त्वम् व्यलासीः प्रायेण द्वारवत्यामवृदयितदा नारदस्त्वत् कदाचि खलु सुखन निधिवत् तत्वो भक्ता नग्रयाय सचु मदिमादवस्वत्त विज्ञानसारम सकी जनहिदा याधुनास्ते बदरिया सोऽयं कृष्णावतारो जयति तव विभो यत्र सौहार्दभीधिस्नेहद्वेषानु रागप्रभृतिभिरदुलैरश्रमैर्योगभेदैः आर्तिं तीर्त्वा समस्ताममृतपदमगु सर्वदसर्वलोकासत्त्वं विश्वार्थि शान्त्यै पवनपुरपदे भक्तिपूर्त्यै च